श्रीहरये नमः अथ नवमोऽध्यायः ब्रह्मोपाच ज्ञातोऽसि मेद्य चुचिरान्ननुदेहभाजा न ज्ञायते भगवतो गतिरित्यवध्यं नान्यद्वदस्ति भगवन्नपितन्न शुद्धं मायागुणव्यधिकराद्यधुरुर्विभासेम् रूपं यदेतत्तव भोतरसोधयेन सश्वन्निवृत्ततमसः आदौ गृहीतमवतारसतैकबीजं यन्नाभिपद्मभवनाथहमाविरासं नातः परं परमयद्भवतः स्वरूपम् आनन्दमात्रमविकल्प अविद्धवर्चः पश्यामि विश्वश्रुजमेकम् अभिस्वमात्मन् भूतेन्द्रियात्मकवधस्तमुपाश्रितोऽस्मिन् तध्वायि तम्भुवनमङ्गलमङ्गलाय ध्यानेस्म नो त उपासकानां तस्मै नमो भगवते नु विधेमतुभ्यं यो नाधृतो नरगभाग्भि ना असत्प्रसङ्गैः ये तु द्वदीयचरणाम्बुजकोशगन्तं जिघ्रन्ति भक्त्या गृहीदचरणः परयाच नापैक्षिणाथ हृदयाम्बुरुहात् स्वपुंसा तावद्भयं द्रविणगेकसुहृन्निमित्तम् सोऽहस्प्रकापरिभवो विपुलश्च लोभः आर्तिमूलं यावन्नदेन्द्रिम् अभयम् प्रवृणीतलोकः दैवेन ते हदधियो भवतः प्रसङ्घात् लोभाभिभूतमनसो कुशलानि शश्वत् शुद्रुधृता सुधर्भरेण सम्पश्यतो मन उरुक्रमसीदते मे यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ मायाबलं भगवतो जनईश पश्येत् तावन्न संस्कृतिरसौ अन्या बृधार्थकरणानि चिनिश्चयान् नानामनोरथधियात् क्षणभग्ननिद्राहाद् दैवाहतार्थरचनारुषयोऽपि देव युक्ष्मत्प्रसङ्गविमुखायिक संसरन्ति त्वं भावयोगपरिभाविदहृत् स रोज आस्ते श्रुते शितपदो ननु नात पुंसां यद्यद् धियातमुरुगाय विभावयन्ते तद्धत्वपो प्रणयसे नाती प्रसीदति तथोपचितोपचारैर् आराधितः सुरगणैर्घृतिबद्धकामैर्यत्सर्वभूतदयया सदलप्ययैको नानाजनेषु अववहितः सुकृदन्तरात्मा पुंसा व्रतचर्यया च आराधनं भगवतः सद्गृह्यार्थो धर्मो पितः कर्क्य चेत् प्रियते नमस्परस्मै विश्वोद्भवस्थितिलयेक्षु निमित्तलीला रासायते ते न म इधं च कृमेश्वराय यस्यावधारगुणकर्मविधम्पनानि नामानि ये सुविगमे विवसा गृह्णन्ते तेनैकजन्म समलं तमजं प्रभद्ये यो वा अहं च गिरिसच्च विभुस्वयं च सित्युद्भवः प्रलय हे तव आत्मूलम् भित्त्वा त्रिभात्ववृत्तये कुरुप्ररोहः तस्मै नमो भगवते भुवनद्रुमाय लोकोऽपि कर्मणि प्रमत्तः कर्मण्ययं भवदर्चनेष्वे यस्तावदस्य बलवानि क जीवितासां सद्यश्चिनत्ति अनिमिषाय नमोऽस्तु तस्मै यस्माद् बिभेम् व्यहमभिद्विपरार्धधिष्ण्यम् अध्यासितः सकलोकनमस्कृतं यत् ते पे तपो बहुसवो बरुरुरुरुरुरुरुरुरुरुरुत्समानः तस्मैनो भगवते दिमगाय धीर्यङ्मनुष्यविबुधातिषु जीवयोनिशो आत्मे चयात्मकृतसेतु परीप्सयायः रेमे निरस्तरतिरप्यवरुद्धदेहः तस्मै नमो भगवते पुरुषोत्तमाय यो विद्ययानुहतोऽपि दशार्धवृत् ्या निद्रामुवाकजठरीकृतलोकयात्राः अन्तर्जले हि कसिपुस्पर्शानुकूलां भीमोर्मिमालिनिजनस्य भी सुखं विवृण्वन् यन्नाभि पद्मभवनात् अहमा समीढ्यां लोकत्रयोपकरणो यदनुग्रहेण तस्मै नमस्त उदरस्थभवाय योग निद्रावसानविकसन्नक्षणाय सोऽयं समस्त जगतां सुहृदेक आत्मा सत्त्वेन यन्मृडयते भगवान् भगेन तेनैव मेदृसमनुस्पृ सदात्यताहं स्रक्ष्यामि पूर्ववधितं प्रणतप्रियोसौ एष प्रपन्न वरधोरमयात्मसक् ्ययां यद्यत्करिष्यति गृहीतगुणावतारः तस्मिन् स्वविक्रममिदं सृजतोऽपि चेथो युञ्जीतकर्म समलं च यथा विजह्याम् नाभिः क्रथाधिकसतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरकमासमनन्तशक्ते रूपं विचित्रमिधमस्य विवृण्वतो मे मारीरिशीष्टनिगमस्य गिरां विसर्गहाँ सोऽसावध्रकरुणो भगवान् विवृद्ध प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् उत्थाय विश्वविजयाय चनो नो विषाधं माध्वा गिरापनयनात् पुरुषः पुराणः मैत्रेय उवाच स्वसम्भवं निशां यैवं तपोविद्या समाधिभिहेर्यावन्मनो वच अताभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः विषण्णचेतसं तेन कल्पव्यधिकराम्भसा लोकसंस्थानविज्ञान आत्मनः परिकिद्यतः तामागादया वाच कस्मलं समयन्निव श्रीभगवानुवाच मा देवगर्भकांस्तन्ध्रीं सर्ग उद्यममावहा तन्मया पादितं ह्यग्रे जन्मां प्रार्थयते भवान् भूयस्त्वं तप आतिष्ठविद्यां चैव मातश्रयां ताभ्यामन्तर्हृदे ब्रह्मन् लोकान्त्रक्षस्य भावृतान् तत आत्मनि लोके च भक्तियुक्ता समाहितः द्रष्टासि मां तथं ब्रह्मन्मयि लोकान्स्तवमात्मनः यथा तु सर्वभूतेषु धारुष्वग्निमिव स्थितं प्रतीचक्षीत मां कस्मलं यदारहितम् आत्मानं भूतेन्द्रियगुणाशयैः स्वरूपेण मया पेतं पश्यन् स्वराज्यं नानाकर्मविधानेन ना प्रजाभक्ति शुश्रुषतः नात्मावसीदत् यस्मिंस्ते वर्षीयान्मदनुग्रगः ऋषीमाद्यं न पद्नाती पापीयां स्वां रजो गुणः यन्मनोमयि निर्भत्तं प्रजा संसृजतोऽभिधे ज्ञातोऽहं भवता त्वदय दुर्विज्ञेयोभिधेहिनां यन्मान् त्वं भूतेन्द्रियगुणात्म तुभ्यं विचिकित्स्यायामात्मा दर्शितो बहिः नालेन सलिले मूलं पुष्करस्य विचिन्वतः यच्च कर्ताङ्गमत्स्तोत्रम् कदाभ्युदयाङ्कितं यत्त्वा तपसि ते निष्ठा स येशमदनुग्रहः प्रीतोकमस्तु भद्रं ते लोकानां विजयेच्छया यतस्तौक्षीर्गुणमयं निर्गुणम् अनुवर्णयन् य एते स्तु स्तोत्रेण मां भजेत् तस्या सु सम्प्रीसि धेयं सर्वकामवरेश्वरः पूर्तेन तपसा यज्ञेर्धानेर्योगसमाधिनां राद्धं निःश्रेयसं पुंसामत्प्रीतिस्तत्त्वभिन्मतम् अहमात्मात्मनां दादप्रेष्ठः सन्प्रेयसामपि अथो मयि रतिं कुर्यादेहाधिर्य ते प्रियः सर्वभेदमयेनेतम् आत्मानात्मात्मयोनिना प्रजासृज यथा पूर्वं याश्च मय्यनुसेरते मैत्रेय उवाच जगस्त्रष्ट्रे प्राधानपुरुषेश्वरः व्यज्येतं स्वेन रूपेण कञ्चनाभस्ति इति श्रीभागवते महापुराणे तृतीयस्तन्ते नवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराज् के जय